प्रथमाष्टकप्रारम्भः ब्रह्म सन्धत्तम् तन्मे जिन्वतम् क्षत्रकुम् सन्धत्तम् तन्मे जिन्वतम् इषकुम् सन्धत्तन् ताम् मे जिन्वतम् ऊर्जगुम् सन्धत्तन् ताम् मे जिन्वतम् रयितुम् सन्धत्तन् ताम् मे जिन्वतम् पुष्टिकम् सन्धत्तन्ताम् मे जिन्वतम् प्रजाकुम् सन्धत्तन् ताम् मे जिन्वतम् पशून्सन्धत्पन्तान्मे दिन्वदम् स्तुतो जनथाः देवास्त्वा शुक्रवाः प्रणयन्तु सुवीराः प्रजाप्रजनगन्परेः शुक्रः शुक्रशोजुषा स्तुतोजुजनथाः देवास्त्वा मन्थिपाः प्रणयन्तु सुप्रजा प्रजा प्रजनगन्परीः मन्थि मन्थिसोजिषा सञ्जग्मानौ दिवः पृथिव्यायोः सन्धत्तम् तन् मे जिन्वदम् राणगुम् सन्धत्तम् तम् मे जिन्वदम् अपानगुम् सन्धत्तम् तम् मे जिन्वदम् यानकुम् सन्धत्तम् तम् मे जिन्वदम् चक्षुः सन्धत्तम् तन्मे जिन्वदम् श्रोत्रकुम् सन्धत्तन् तन्मे जिन्वदम् मनः सन्धत्तम् तन्मे जिन्वदम् बाचकुम् सन्धत्तन् ताम् मे जिन्वदम् आयुष्ठायुर्मे धत्तम् आयुर्यज्ञायधत्तम् आयुर्यज्ञपदगे धत्तम् प्राणस्थः प्राणम् मे धत्तम् प्राणैयज्ञाय धत्तम् प्राणैयज्ञपदगे धत्तम् चक्षुस्थश्चक्षुर्मेधत्तम् चक्षुर्यज्ञाय धत्तम् चक्षुर्यज्ञपदगे धत्तम् श्रोत्रज्ञस्थश्रोत्रम् मे धत्तम् श्रोत्रयज्ञाय धत्तम् श्रोक्तम् यज्ञपतके धत्तम् तौ देवौ शुक्रामन्सिणौ कल्पयतम् देवेऽर्विषः कल्पयतम् मानुषेः विषमोर्जमस्मासु धत्तम् प्राणान् पशुषो प्रजाम्मयि च निरस्तोमर्कः। च निरस्तः शण्डः निरस्तो सप्रथमः सङ्कृतिर्विश्वकर्मा सप्रथमो मित्रावणाग्निः सप्रथमो बृहस्पतिश्चित्वान् अस्माय सुतमाजहोमि कृत्तिका स्वग्निवादधीता एतद्वाग्नेर्णनक्षत्रम् यत्कृत्तिकाः स्वायामेवैनम् देवतायामाधाय ब्रह्मवर्त्यसे भवति मुखम् वा एतन्नक्षत्राणाम् यत्कृत्तिकाः यः कृत्तिका स्वग्निमा धत्ते मुख्य एव भवति अथो खलु अग्निनक्षत्रमित्यपचायन्ति विहान् हलाहुरो भवति प्रजापतीरोहिण्यामग्निमथ अ देवारोहिण्यामादधर ततो वैदे सर्वान् रोहानरोहन् तद्रोहिण्यैरोहिणी यो रोहिण्यामग्निमा ृद्धो वा सर्वान् रोहान् रोहते देवा वै भद्राः सन्तो ग्यमाधिसन्त केषामनाधितोऽज्ञाधे अथयेभ्यो वामम् वस्वपाक्रामत् ते पुनर्वस्वोरादथत ततो वेतार वामम् वसोपावर्तत यः पुरा भद्रः सन् पामीयाम् स्यात् स पुनर्वस्वरज्ञिमादधीत पुनरेवैनम् वामम् वसोपावर्तते छद्रो भवति यः कामगेत दानकामा मे प्रजास्युरिति स पूर्वयोः फल्गुण्योरज्ञमादधीत अर्यम् नो वा एतन्नक्षत्रम् यत्पूर्वे फल्गुणी अर्यमे नितमाहुर्यो ददाति दानकामा अस्मै यः कामयेत भगे स्यामिति स उत्तरयो फल्गुन्योरग्न्यमादधीता भगस्य वा एतन्नक्षत्रम् यदुत्तरे फल्गुनी भग्ये भवति कालकञ्चा तेसु तेषु वर्गाय लोकाय अग्निमचिन्वता पुरुषयिष्टकामुपादधात् पुरुषयिष्टका स इन्द्राब्राह्मणा येषा मे चित्राणामेति तेषु वर्गम् लोकमाप्रारोहन् स इन्द्र इष्टकामाबृहत् देवाकीर्यन्तीर्यन्त तपोर्णावभयो भवन् द्वादपतताम् तौ दिव्यौ श्वानामभवताम् योऽभ्यादुर्व्यमान् स्यात् स चित्रागामव्यमादधीता अवकेरयैव भ्रातुर्व्याने ओजोपलमिन्द्रियम् वीर्यमात्मन्धत्ते वसन्ताः ब्राह्मणोः अग्निमादधीत वसन्तो वे ब्राह्मणस्यर्तुः स्व एव मृता बाधाय ब्रह्मवर्चसि भवति मुखम् वा हेतसधथूनाम् यद्वसन्तः अथो यो निमन्तमेवैनम् प्रजातमाधत्तेष्मेनाजन्य आदधीत विवेष्मो वेनाजन्यस्य कर्तुः स्वगेवेन मृताबाधाय इन्द्रियावी भवति शरदिवैश्यादधीत शरद्वैवेश्यस्य कर्तुः स्वगेवेन मृताबाधाय पशुमान्भवति न पूर्वयोत्फल्गुण्योरज्ञमादधीत एषावेटन्यारात्रिः संवत्सरस्य यत्पोल्पे फल्गुणे पृष्ठितगैवसंवत्सरस्याग्निमाधाय पापीयान्भवति उत्तरयोरादधीता एषावेत्प्रथमारात्रिः संवत्सरस्य यदुत्तरे फल्गुणी मुखदगैवसंवत्सरस्याग्निमाधाय अधीरान्भवति अथो खलु यदेवैन यज्ञमुपणमेत् असादधीता सैवास्यः उद्धन्ति यदेवास्यामेध्यम् तदपहन्ति अभो वोक्षतिशाङ्कैः सिगतानिवपति एतद्वाग्नेर्वैवेश्वानरस्य रूपम् रूपेणैव वै एश्वानरमवरुन्धे भूषान्यवपति पुष्टिर्वा प्रजननम् निलूषाः पुष्ट्यामेव प्रजनमज्ञिमाधत्ते अथो सञ्ज्ञान एव सञ्ज्ञानज्ञह्ये तत्पशूनाम् ऋदूषाः व्यावापृषभिः सहास्ताम् यदि अब्रूताम् अस्ते मनौषः यज्ञयमिति यदमुष्या यज्ञियमासीत् तदस्यामदधा तवषा अभवन् यदस्या यज्ञियमासीत् तदनुष्यामदधात् तदश्चन्द्रमसि कृष्णम् ऊषान्निमपन्नतोऽध्यायेत् या वा पृथिव्यो देव यज्ञिग्निमाधत्ते अग्निर्देवेऽभ्या निरायता आसोरूपम् कृत्वा सपृथिवीम् प्राविशत् सभोतेः कुर्वा नः पृथिवीमनुसमचरत् तदा कुहरीशमभवत् यदा कृत एतकम् सम्भारो भवति यदेवा श्रम् तदेवावरुन्धे वोर्जम् वा गेतकम् रसम् पृथिव्या उपदेका उद्धिहन्ति यद्वल्मीकम् यद्वल्मेकमपासम्भाव भवति वोर्जमेव रसम् पृथिव्या अवरुन्धे अथो श्रोत्रमेव श्रोत्रगृह्ये तत्पृथिव्याः यद्वल्मीकः अवधिरो भवति य एवम् वेदा प्रजापतिप्रजा असृजत तासामन्नमुपाक्षीयत ताभ्यस्तूदमुपप्राभिरत् ततो वे तासामन्नन्ना क्षीयत यस्य दोतः सम्भारो भवति नास्य गृहेऽन्नम् क्षीयते आपो वा इदमग्रे सलिलमाधीते तेन प्रजापतिरशाम्यते कथ विनग्य तोपश्यत् पुष्करपर्णम् तिष्ठते सोऽन्यता अस्ति वैतते यस्मिन् निजमधितिष्ठतीति समराहो रूपम् कृत्वाज्यते स पृथिवीमथाते तस्या उपात्योतमज्जते तत्पुष्करपर्णे प्रथयते यदप्रथयते तत्पृथिव्यैपृथिवित्वम् अभोद्वा इदमिति तद्भूम्यैभूमित्वम् तान्निषो निवाधस्तमवहत् आगुम् शर्कराभिरतम् वत् शम्बैनो भोगिति तच्छर्कराणागुम् शर्करत्वम् यद्वराहविहितकम् सम्भाव भवति अस्यामेवाशम्बट्कारमग्निमाभत्ते शर्कराभवम् तिभृत्तेः अथो शन्त्वाय फलेताग्निराधे इत्याहो आपो वरुणस्य भक्तया सन् ता अग्निरभ्यध्यायते ताः समभवत् तत्सरेतः परापत तद्धिरन्यमभवते तद्धिरन्यमुपास्यति सरेतसमेवाग्निमाधत्ते पुरुषयन्वै स्वाद्रेतसो बीभत्सलित्याहुः उतरत उपास्यत्यबीभत्सायै अधिप्रयच्छति आर्तिमेवाभिप्रयच्छति अग्निरुदेवेभ्यो निनायत अश्वरूपम् कृत्वाश्ववत्सरमतिष्ठते तदस्वत्थस्याश्वत्थत्वम् यदा स्वभावो भवति यदेवासु तत्र तदेवावरुन्धे देवावोर्जम् व्यभजन्त अदौदुम्बर उदतिष्ठते भूर्वा उदुम्बरः यदौदुम्बरसम्भावो भवति वोर्जमेवावरुन्धे श्रेयस्यामितो देशोमासीत् गङ्गायत्र्यात् थे। तस्य पर्णमक्षिद्यत तत्पर्णो भवत् तत्पर्णस्य पर्णत्वम् यस्य पर्णमयः सम्भारो भवति सोमपीठमेवावन्धे देवा वै ब्रह्मन्नवदन्त तत्पर्ण उपाशृणोत् शुष्वभावे नाम भवति थमेवे प्रजापतिरग्न सृजता स्वाभे प्रमाधतीक्ष मेमये शादा अग्ने सृष्ट से ग्रियंगत ये संभव भाएवे सहृदयोग्निराधे द इत्याहुः मरुतोऽग्निरग्निमतमयन् तस्य तान्तस्य हृदयमाच्छिन्दन् सा शनिरभवत् यदशनिषतस्य वृक्षस्य सम्भावो भवति सहृदयमेवाग्निमाधत्ते द्वादशविक्रामेष्वग्निमादधीता द्वादशमासा संवत्सरः संवत्सरा देवेण वरुध्याधत्ते यद्वादशविक्रामेष्वारथेत परिमितमवरुन्धेत चक्षुर्निमितादथेत यद्वादशविक्रामा इति परिमितम् चैवापरिमितम् चावरुन्धे अनृतम् वैवाचावदते अनतम् मनसाध्यायते चक्षुर्वै सत्यम् अद्राह अदल समिति तत्सत्यम् यश्चक्षुर्निमितेऽग्निमाधत्ते सत्य एव माधत्ते तस्मादाहिताग्निर्नानुकम् वदेत् नास्य ब्राह्मणो नाश्वान् गृहे पशेत् सत्येभ्यस्याग्निराहितः आग्ने वै रात्रिः आग्नेयाः पशवः ऐन्द्रमः न कङ्गारिकपत्यमादधाति पशूरेवावरुन्धे विवाहमलीयम् इन्द्रियमेवावरुन्धे अर्धोऽले सूर्याः वनीय वा दधाति एतस्मिन् वै लोके प्रजापतिः प्रजा असृजत प्रजा एव तद्व्यजमानसृजते अथोभूतम् चैव भविष्यच्चावरुन्धे या वै मानवीयज्ञानो काशिम् असुरा अग्निवादधत इति तदगच्छत् ताहवनीयमग्रातथा अथकारुगमत्यम् अथाङ्ग्वाहार्यवजनम् सा व्रणीव प्रदेश्रीरकात् जा भूत्वा परा भविष्यन्तीति यस्यैवमग्निराधीयते प्रदेशस्य श्रीर इति भद्रा भूत्वा परा भवति साशुना देवा अग्निमादसत इति तदगच्छत् हेन्वाह यमजनमघ्रातस अथकारिकमन्यम् अचाहवीरम् साब्रवीर प्राच्यशाश्रीरकार भद्राः वर्गम् लोकमेष्यन्ति प्रजान्तमगेक्षन्त इति यस्यैवमग्निलाधीयते प्राच्यश्रीरते भद्रो भूत्वा सुवर्गम् लोकमेति प्रजान्तो न विन्दते साप्रभेदिडामनम् तथा वाहन्तवाग्निमाधास्यामि यथा प्रजजापशुभिर्विधनैर्जनिष्यसे प्रत्यस्मिल्लोके स्थास्यसि अपिषुवर्गम् लोकम् जेष्यसीति गारिकपत्यमग्रादधा गारिकपत्यम् वा न प्रजाः लारिकवत्तेनैवास्मै प्रजाम् पशून् प्राजनयते अथान्वाहार्यवचनम् त्रियङ्गिम वा अयम् लोकः अस्मिन्नेव तेन लोके प्रत्यतिष्ठते अथाहवनीयम् तेनैव स्वर्गम् लोकमभ्यजयते तस्यैवमग्निराधीयते प्रजया पशुभिधुनैर्जायते प्रत्यस्मिल्लोके तिष्ठति अभिषवर्णम् लोकम् जयति यस्य वा यथा देवतमग्निराधीयते दे आ देवताभ्यो वृष्टते पापीयान् भवति यस्य यथा देवतम् न देवताभ्यावृष्टते वसीयान् भवति भूनान्त्वाङ्गिरसाम् व्रतमते व्रते न तथा मेति भृग्मादध्यात् आदित्यानाम् त्वादेवानाम् व्रतवदे व्रदेनाथधामेत्यन्यासाम् ब्राह्मणीनाम् प्रजानाः वरुणस्य त्वाराज्ञा प्रतवते व्रदेनाथधामेति राज्ञः इन्द्रस्य त्वेन्द्रेण व्रतपते ब्रतेनाथधामीतिराजन्यस्य मणाः स्वाग्राम्याः प्रतवते ब्रतेनाथधामीति वैश्वस्य त्रिभूणाम् त्वा देवानाम् प्रतपदे भ्रते न तथा मेति रथकारस्य यथा देवतमग्निनाधीयते न देवताभ्याहृश्यते वधीनान् भवति प्रजापदर्वाचः सत्यमपश्यते तेनाग्निमाधत्ता तेन वैसार्थ्नो भोर्भवस्सु परित्याह एतद्वैवाचसः सत्यम् एते नाग्निमासत् एव अथो सत्यप्राशोरेव भवति अथोज एवम् विद्वानभिचरति स्मृत एवम् भोरित्याः प्रजा एव तद्यजमानसृजते भुवरित्याः अस्मिन्नेव लोके प्रचतिष्ठति सुवैत्याः सुवर्ग एव अभिरक्षतेभपत्यमादधाति ते इमे लोकाः येष्वेवैनम् लोकेषु प्रतिष्ठितमाधत्ते सर्वै पञ्चभिराह वणीयम् सुवर्गाय वा केषु लोकायाधीयते यदाह वणीयः स्ववर्गये वास्मै लोके वाचः सत्यम् सर्वमाप्नोति त्रिभिर्गारिभपत्यमादधाति पञ्चभिराह वणीयम् अष्टौ सम्पद्यन्ते अष्टाक्षरा गायत्री गायत्रोग्निः या वा नेवाग्निः समासत्ते प्रजापतिः प्रजा, प्रजा असजना ता अस्मात्सृष्टाः पराचीरायन् ताभ्याज्योभिरुदगृह्णान् कनञ्ज्योतिः पश्यन्ते प्रजा अभिसमावर्तन्त वरे भाग्निमुद्गृह्णे यादुद्धरन् ज्योतिरेव पश्यन्ति प्रजायमाणमभिधमावर्तन्ते प्रजापते प्रजा रक्षश्वयते तत्परावदते तदश्वो भवते दे तदश्वस्याश्वत्वम् दे देशमै प्रजापतिः यदग्निः प्राजापत्योऽश्वः यदश्वम् पुरस्तान्नयति स्वमेव चक्ष्मः पश्यन् प्रजापतिरनुदेति बद्रीवा एषः यदस्वम् पुरस्तान् नयति जातानेव भ्रातृर्जान् प्रणुदते पुनरावर्तयति जिष्यमानानेव प्रतिनुदते ज्ञा वनीजोगालिखपत्यमकामयत नैगारिकपत्याहवनीयम् तौ विभाजम् नाशक्नात् स्वपूर्ववाग्भोत्वा यतः स्वम् पुरस्तान्नयति विभक्तिरेवैनयोः सा अथो नानावीर्या वेवैनौ वे कुरुते यदुपर्युवर्शिरोहरेत् प्राणानुविच्छिन्द्यात् अथो हरशिरोहरति प्राणानाङ्गोपीठाय कियत्यग्रे हरति अथेयत्यथेयति ने मे लोकाः एष्वेवैनम् लोकेषु प्रतिष्ठितमासत्य प्रजापतिरग्निमसृजता स्वमिभे त्वमाधक्षतीति तस्य त्रेधामहिमानम् व्यूहरे शान्त्य अप्रदाहाय यत्रेधाग्निराधीयते महिमानमेवास्य सद्व्यूहति शान्त्याप्रदाय पुनरावर्तयति महिमानमेवास्य सन्दधाति पशुर्वादेशः यदश्वः एतरुद्रः यदग्निः श्वस्य फलेग्नि दद्यात् रुद्राय पशूनपि दद्यात् अपशुर्यजमानः स्यात् यन्नाक्रमयेत् अनवरुद्धास्य पशवः स्युः पार्श्वद आक्रमयेत् यथाहितस्याग्नेरङ्गाराभ्यपवर्तेरन् अवरुद्धास्य पशवो भवन्ति न रुद्रायापि दधाति त्रीणि हवेकम् शनिर्वपदे विराज एव विक्रान्तविक्रमते अग्नये भवमानाय अग्नजे पावकाय अग्नयेषु चलेदग्नेवमानाय निर्भपदे पुणात्येवैनम् यदग्नजे पावकाय भूतदेवास्मिन्नन्नाद्यम् दधाति यदग्नेषु चले ब्रह्मवर्पसमेवास्मिन्नुपरिष्टाद्दधाति देवासुरासंयत्ता सन् ते देवा विजयमुपयन्तः अग्नौ भावम् अनुसन्यदथा न भविष्यति यदि न जेष्यन्तीति तदग्निमशक्नात् तत्रेधा विन्यदथात् अशुसृतृतीयम् अश्रुतृतीयम् आदित्ये तृतीयम् तद्देवा विजित्य हे अग्नि पवमानाय पुराशुमष्टाकपालन्निरमपन्मे पशवो वा अग्निः पवमानः यदेव पशुश्वासीत् तत्तेनावारुन्धत हे अग्निले पावकाय आपो वा अग्निः पावकः यदेवश्वासीत् तत्तेनावारुन्धत हेभ्यलेशुजे यदेवादित्यासीत् तत्तेनावारुन्धता ब्रह्मवादिना वदन्ति त्वनुभो वा वैताज्ञाधेयस्य आज्ञेयो वा अष्टाकपालो ज्ञाधेयमिति यत्तन् निर्मपेत् नैतानि यथात्मा स्यात् नाङ्गानि तादेवदते यदेतानि निर्मपेत् न यथाङ्गानि स्युः नात्मा तादृगे मदत् उभयानि सह निरुप्याणि यज्ञस्य सात्मत्वाय उभयम् वा एतस्येन्द्रियम् वेद्यमाप्यते भ्यो आग्माधत्ते ऐन्द्राज्ञमेकादशकपालमणनिर्भवेत् आदित्यञ्चलम् इन्द्राग्नी वै देवानामयातयामानौ ये एव देवते रुन्धे आदित्यो भवति यम् वादिः अस्यामेव प्रतिष्ठति धेन एतद्रेतः यदाज्यम् अनृहस्तन्मुलाः विधनमेवावरुन्धे भवति यज्ञस्यालो मोक्षाम् दत्वाय तत्त्वार आरभेयाः प्राश्नन्ति दिशामेव द्योतिषुजुति पशवो वा एतानि हवेगुंषि एष रुद्रः यदग्निः यत्सद्येतानि हवेगुंषि निर्वपेत् रुद्राय पशूनपि दद्यात् अवशुर्यजमानः स्यात् यन्नानिर्वपेत् अनवरुद्धास्य पशवः स्युः द्वादशरात्रेश्वरनिर्वपेत् सम्वत्सरप्रतिमावे द्वादशरात्रियः सम्भत्सरेणैवास्मैरुद्रवंशमहित्वा अशोनवरुन्धे यदेकमेकमेतानि हवेकंश निर्बवेत् यथान्यापनानि पूरयेत् आ दृष्टते न प्रजननमुच्छिगुंशेत् एकम् निरूप्य उत्तरे समस्येत् तृतीयमेवास्मै लोकमुच्छिकंशति प्रजननाय तम् प्रजनामशुभिरणप्रजायते अथो यज्ञस्यैवैषाभिप्रान् अथ शर्कम् प्रवर्तयति मनुष्यरथेनैव देवम् प्रत्यवरोहति ब्रह्मवादिना वदन्ति भोतव्यमग्निहोत्रा इति यद्वेषाजुभुयात् अयथापो ब्रमाहुतेजुभुयात् यन्नजुभुयात् अग्निः परा भवेत् तोष्णीमेव होतव्यम् यथा पूर्वबाहुति भवति नाग्निः परा भवति अग्नि चे ददाति अग्निमुखानेवत्तोऽन्प्रीणाति उपवर्षणम् ददाति रूपानामवरुध्यै अश्वम् ब्रह्मणे इन्द्रियमेवावरुन्धे धेनुकुम्भोत्रे आशिष एवावरुन्धे अनद्वाहमध्वर्यवे बन्धिर्वा अनद्वान् बन्धिरध्वर्योः वन्धिनैव बन्धियज्ञस्यावरुन्धे मिथुनो गावो ददाति विथनस्यावरुद्धे वासो ददाति सर्वदेवत्यम् वै वासः सर्वा एव देवता प्रीणाति आद्वादशभ्यो ददाति द्वादशमासा संवत्सरः संवत्सर एव काममोर्ध्वन्देयम् ओर्जन्नाथेः द्विपदे चतुष्पदे अर्कश्चक्षस्तरसौर्यस्तदयमग्निः सम्प्रयः पशुपेर्भवते यत्ते शुक्रशुक्रम् वर्जः शुक्रार्नो शुक्रम् ज्योतिरजस्रम् तेन मेदीदिहिते नत्वादधे अग्निनाग्ने ब्रह्मणा आदशे व्यादशे समादिव्यादशे एते अग्ने विराच्च स्वराच्च प्रेमाविशतान् ते माजिन्मताम् मा एते अग्ने शिवे तनुवौ सम्राच्च विभोश्च हेमाविशतान् ते माजिन्मताम् मा एते अग्ने शिवे तनुवौः विभोश्च मरिभोश्च हेमाविशतान्तेमाजिन्मताम् एते अग्ने शिवे तनुवौः प्रभवीप्रभूतिश्च प्रेमाविशताम् त्रेमा जन्मता यास्ते अग्नेश्वास्तनुवः ताभिस्तादथे यास्ते अग्नेघोरास्तनुवः ताभिरमुम् गच्छ इमे वा एते लोका अग्नयः ते यदव्यावृत्ताधीनेरन्ने शोचने युर्यजमानम् धर्मश्रजतिकाधिभवत्यमादधाति वासः प्राण इत्यन्वाहार्यवचनम् अर्कश्चक्षुरित्याहमनीयम् तेनैवैनान्यावर्तयति तथा रशोदनम् दीयमानम् अथन्तरमभिकारे कार्घमत्याधीयमाने नासन्तरो वायम् लोकः अस्मिन्नेवैनम् लोके प्रतिष्ठितमासत्ते वामदेवमभिकारमनुधीयमाने अन्तरिक्षम् वै वामदेव्यम् अन्तरिक्षदेवैनम् अथो शान्तिर्वैवामदेव्यम् शान्तमेवैनम् पशव्यमुद्धरते बृहदभिकारताहमनीयाधीयमाने वारिहतो वा असौ लोकः अमुष्मिन्नेवैनम् लोके प्रतिष्ठितमाधत्ते प्रजापतिरग्निमसजत स्वीत संवारवन्ती येनावारयत तद्वारवन्ती यस्य वारवन्ती यम् शैतेन शेते अकुरुत तच्छैतस्य शैतत्वम् यद्वारवन्तीयमभिगायते वार्यत्वैवैनम् प्रतिष्ठितमाधत्ते शैतेन शैते कुरुते धर्मस्य रजितिकारिकवत्यमादधाति सशीलषाणमेवैनमाधत्ते उतैनमुत्तरो यज्ञो नमति रुद्रो वा एषः यदग्निः स आधीयमाननेश्वरो विजमानस्य पशूरहितोः सम्प्रियः पशुगर्भपतिप्याः पशुभिरेव न कम्सम्प्रियम् करोति पशो, पशो नाम हिगुंसादे छद्यस्तोकायतनकार्यक्षेत्याः आशिषमेवैतामाशास्ते वासप्राणैत्यन्वाहार्यवचनम् स प्राणमेवैनमाधत्ते त्याह अन्नमेवास्मैवनम् पतिदम्पे विद्वानित्याह विभक्तिरेवेन योः सा अथो नावीर्यावेवेन कुरुते भोजन्नो धेद्विपदेत्याः आशिषमेवैतामाशास्ते अर्कश्चक्षुरित्याहीयम् अर्को मे देवानामन्नम् अन्नमेवावलम्भे एनमे देदिहेत्याह समिन्धे एवैनम् आनशेव्यानशैरि त्रिविलिङ्गयति तेरिमे लोकाः एष्वेवैनम् लोकेष् प्रदिष्टिरमाधत्ते तत्तथानकार्यम् वेङ्गिरमप्रदिष्ठिरमाधीन बुद्धर्कैवाधायाभिमन्त्र्यः अलीङ्गिलमेवेन प्रतिष्ठितमाधत्ते विराच्यस्वराच्चयास्ते अग्ने शिवास्तनुभस्ताभिस्त्वादशैत्याः एतावा अग्ने शिवास्तनुवः ताभिरेवेन कम्समर्थयति यास्ते अग्नेघोरास्तनुभस्ताभिरमम् गच्छयति ब्रूयाद्यम् विश्यात् ताभिरेवेण पराभावयति शबी गर्भादग्निम् वन्थति हेधा वा अग्नेर्यज्ञातनोः तामेवस्मै जनयति अतिपुत्रकामा साध्येभ्यो देवेभ्य ब्रह्मो धनमवचत् तस्या उच्छेषणमदुः तत्पाष्णान् सारेतो धत्ता तस्य धाता चार्यमाचारेताम् सा द्वितीयमवजते तस्या सारेतो धत्ता तस्यै मित्रस्य वरुणश्च जायेताम् सा तृतीयमवजते तस्या उच्छेण सारेतो धत्ता तस्य अगुञ्जस्य भगश्च जायेता सा सारेतो धत्ता तस्या इन्द्रस्य ब्रह्मोदनम् पचति एतदेव तद्दधाति राष्टन्त्यब्राह्मणोदनम् यदाज्ञमुच्छिष्यते तेन समिथोऽभ्यदधाति उच्छेक्षणाद्वा इति रेतो धत्ता उच्छेक्षणादेव तद्रेतो धत्ते अस्थिवा एतत् यदत्समिधः एतद्रेतः यदाज्यम् यदाज्ञेन समिधोऽभ्यद्यादधाति अस्थे तद्रेतसि दधाति तिस्रा दधातिमितत्वाय इयतेर्भवन्ति प्रजापचनायज्ञमुखेन संमिताः इयतेर्भवन्ति यज्ञमरुषा संहिताः इयतेर्भवन्ति एतावद्वैपुरुषे वीर्यम् वीर्यसंमिताः आर्द्रा भवन्ति आर्द्रमि बहिरेतसिक्ष्यतेः चित्र्यस्याश्वत्थस्या दे। दधाति चित्रमेव भवति गतवतीभिरादधाति एतद्वाज्ञया प्रियम् धाम यद्घताम् नासमर्थयति गायत्रेभिर्ब्राह्मणस्यादध्यात् गायत्रछन्दावैर्ब्राह्मणः स्वस्य छन्दनः प्रत्ययनस्ताय द्रष्टग्भिराजन्यस्य द्रष्टप्छन्दावैराजन्यः स्वस्य छन्दसप्रत्ययनस्ताय जगदीभिर्वैष्यस्य जगती छन्दैष्यः स्वस्य छन्दसप्रत्ययनस्तायम् गोपानेतो हितम् वर्धते यद्येनोपणमेति मुपेयात् यन् भागम् समश्पेयात् निःश्रियमुपेयात् निर्वीहर्य स्यात् नैनभग्यरूपनमेत् स्वराधास्य मानो ब्रम्बौ धनम् पचति आदित्या वा इदमुत्तमास्वर्गम् दे लोकमायन् देवा इतोऽयम् तम् प्रतिपदन्ते एते खलु तैरेव सन्तम् गच्छति नैनम् प्रतिवदन्ते ब्रह्मवादिना वदन्ति अग्निः कार्यः योस्मै प्रजाम् पशोन् प्रजनयतीति शल्कैस्तागौराग्यमग्नि तस्मिन् मभ्युषमरणे निष्टभेन् विषरिषभागवासिनान्यामिच्छा इति तादृके वदते अबोधोऽभस्माज्ञम् बन्धते ैव सन्ततिः मचित्वा प्राम् चमुद्धरति संवत्सरमेव तत्र हितम् प्रजनयति अनाहितस्तस्याग्निरित्याहो यः समितो नासा याग्नि ताः संवत्सरे पुरस्तादा दध्यात् संवत्सरादेवेन तिमावे द्वादशरात्रयः संवत्सरमेवास्याहिता भवन्ति यदि द्वादश्यान्नारुध्यान् रहे पुरःस्तानारुध्यान् आहितानेवास्य भवन्ति प्रजापतिः प्रजा असृजता शरीरानो मन्यत तदपोतप्यता स आत्मञ्जर्यमपश्यत् अदवर्धना अतस्मात्सह सोऽर्थमसृज्यत सा विराटभवत् तान्देवासुराव्यगृह्णताजापतिः महा एषा दोहायुष्माकमिति सा तदप्राच्युदक्रामदे तत्प्रजापदिष्पर्यग्रन्थान् अथर्वमिदुम् मे गोपालेति साध्रियमुदक्रामदे तत्प्रजापदिःपर्यग्रन्हान् पर्यप्रजा मे गोपालेति सा ध्रीयमुदक्रामदे तत्प्रजापदिःपर्यगृह्णात् षग्गस्य पशोन्मे गोपालयति सा च उत्समुदक्रामते तत्प्रजापदःपर्यगृह्णात् सप्रथसभाम् वे गोपालयति सा पञ्चमुदक्रामते तत्प्रजापदिष्पर्यगृह्णात् अगेबुद्ध्यमन्त्रम् मे गोपालयति अग्ेन मावदा तान् व्यक्रमत तान् प्रजापतिःपर्यगृह्णात् अथोपङ्क्तिमेव पङ्क्तिर्वा येषा ब्राह्मणे प्रविष्टामात्मनो निरग्निधीरे तस्मादेतावन्तोऽ सर्वम् पान्ते नैव पान्तज्ञ स्पृणोति अथर्ववितुम् मे गोपालेत्याह अन्नमेवेदेन स्पृणोति तर्यप्रजा मे गोपालेत्याह प्रजामेवेतेन स्पृणोति षड्गस्य पशून्मे गोपायेत्याह पशूनेवेतेन स्पृणोति सप्रतसभाम् मे गोपालयेत्याह सभामेवेतेनेन वियज्ञ स्पृणोति अरे बुद्धि य मन्त्रम् मे गोपालयेत्याह मन्त्रमेवेतेन श्रीयज्ञस्पृणोतिवचने वा तेन साभेष्टः प्रेतः यद्वारिकमत्यामधिश्रयन्ति सम्पत्नेः याजयन्ति तेन सा स्याभेष्टः प्रेतःपति तेन साभेष्टः प्रेतः यत्सभायाम् विजयन्ते तेन साभेष्टः प्रेतः यदा तेन साभेष्टः प्रेतः सर्वे प्रीताभीष्टा आधीयन्ते प्रवदमेष्यन्नेवोपतिष्ठेतैकमेकम् शिलाः ब्राह्मणाय वासिने बलिताय विधानेति रात्रिगेव तत् पुनराद्रोपतिष्ठते सा भागेयमेवशान्तर्ध्वारोहत् सा सारोहिण्यभवत् तद्रोहिण्योभिणित्वम् लोहिण्यामग्निमादधीता स्वय वेन यो नः प्रतिष्ठितमाधत् निर्धनात्य